आन्त्रेभ्यस्ते गुदाभ्यो वनिष्ठोर्हृदयादधि यक्ष्मं मतस्नाभ्याक्नः प्राशिभ्यो विवृहामि ते आन्त्रेभ्यस्ते गुदाभ्यो वनिष्ट ो॒र्हृदयादधि यक्ष्मं मातस्नाभ्याक्नः प्राशिभ्यो विवृहामि ते आन्त्रेभ्यस्ते गुदाभ्यो वनिष्ठोर्हृदयादधि यक्ष्मं मातस्नाभ्याक्नः प्राशिभ्यो विवृहामि ते